श्रीमद्भागवत्महापुराणं द्वादशस्कन्ध द्वादशोऽध्यायः जरासन्धसमानीतसैन्यस्य बहुशोबधः घातनं यवनेन्द्रस्य कुशस्थल्यानिवेशनम् आदानं पारिजातस्य सुधर्मायासुरालयात् रुक्मिण्याहरणं युद्धे प्रमथ्य द्विसुतो हरेः हरस्य जिम्भरणं युद्धे बाणस्य भुजचिन्तनं प्राग्ज्योतिषपतिं भक्त्वा कन्यानां भरणं च यत् दन्तवक्त्रस्य दुर्मतेः शम्बरोऽद्विद पीठो माहात्म्यं च बधस्तेषां वारणस्यास्य दहादाहनम् भारावतरणं भूमे निमित्ते कृतपाण्डवम् विप्रसापापदेशेन शृङ्हारश्वकुलस्य च उद्धवस्य च संवादो वासुदेवस्य चाद्भुतः यत्रात्मविद्या शखिला प्रोक्ता धर्मविनिर्णयः ततो मर्त्य परित्याग आत्मयोगानुभावतः युगलक्षणवृत्तश्च करोणनामुपलम्प्लवः चतुर्विधस्य प्रणय उत्पत्ति स्त्रीविधा तथा देहतागस्य राजर्षे विष्णुरातस्य धीमतः शाखाप्रणयन्न मृषेर्मार्कण्डेयस्य सत्कथा महापुरुषविन्यास सूर्यस्य जगदात्मनः इति चोक्तं द्विजश्रेष्ठा यत्पृष्टोऽहमिहास्मिव लीलावतारकर्माणि कीर्ति तानीह सर्वशः पतितस्खलिततश्चार्थः श्रुत्वा वा विवशो ब्रुवन् हरिणमित्युच्चैर्मुच्यते सर्वपातकात् तङ्करतमालो भगवानन्तसुतानभावो व्यसनं हि पुंसां प्रविष्टचित्तं विधिनोद्यशेषं यथा तमोर्को भ्रमि वाति वातः निसागिरस्ताजसतीरसत्कथा न कथ्यते यद्भगवानथोक्षजः तदेव सत्यं तदुहैव भगवद्गुणोदयम् तदेव रुचिरं नवं नवं तदेव सस्वन्मनसो महोत्सवं तदेव शोकानवशोषणं नृणां यदुत्तमश्लोकयशोनुगीयते न तद्वचश्चेत्रपदं हरेर्यशो जगत्पवित्रं प्रगणीतकर्हि चे तद्वाक्षतीर्थं साधवो मलाः स वाग्विसर्गो जनताख्यसम्प्लवो यस्मिन् ते श्लोकमबद्धवत्यपि नामान्यनन्तस्य शोङ्कितानि च शृण्वन्ति गायन्ति गृणन्ति साधवः नैस्करिमप्यचितभाववर्जितं न वर्जितं ज्ञानमलं निरञ्जनम् कुतः पुनः सस्वतभद्रमीश्वरेण्यर्पितं कर्म यदप्यनुत्तमम् यशः शियामेव परिश्रमः परो वर्णाश्रमाचारतपः सुतादिसु अविस्मृते श्रीधरपादपद्मयो गुणानुवादश्रवणादिभिर्हरेः अविस्मृते कृष्णपदारविन्दयो छिलोत्य भद्राणि शमं धृत्तनोतु च सत्त्वस्य शुद्धिं परमात्मभक्तिं ज्ञानं च विज्ञानविरागयुक्तम् योऽयं जग्रयायिबत भूरिभागा यच्छश्वदात्मन्यखिलात्मभूतं नारायणम् देवमदेवमीशम् अज्रस्य भावा भजता विवेश्य अहं च संस्मारित आत्मतत्त्वम् श्रुतं पुरा मे परमर्षिवक्त्रात् त्रायोपवेशेनपते परीक्षितः सदा श्रीश्रीणां महतां तु एतद्वाकथितं विप्राकसनीयोरुकर्मणः महात्म्यं वासुदेवस्य सर्वाशुभविनाशनम् य एवं श्राव्ये नित्यं यामक्षणमनन्यधे सद्दावान् यो नो शृन् शृणुयात पुनात्यात्मानमेव शादस्यामेकादश्यां वा शिन्वन्नायोशवान् भवेत् पठत्य नशनन् प्रयस्ततो भवत्यपातते पुष्करे मथुरायां च द्वारवत्यां यतात्मवान् उपोष्य संहितामेतां पठित्वा मुच्यते भयात् देवतामुनियः सिद्धा पितरो मनवो नृपाः यच्छन्ति कामान् गृणतः सुन्वतो यस्य कीर्तनात् ऋचो यजुंसि सामाने द्विजोधित्यानुविन्दते मधुकुल्याघृतकुल्यापयकुल्यासि तत्फलं पुराणसंहितामेताम् अधीत्य प्रयतो द्विजः प्रोक्तं भगवता यत्तु तत्पदं परमं व्रजेत् विप्रोधित्यानुयात् प्रज्ञां राजन्यदोधिमेखलाम् वैस्यो निधिपतित्वं च शुद्रशुद्धेतपातकात् कलिमलसङ्गतिकालनोऽखिलेशो हरिनृत्र न गीयते हभिक्षणं यः तु पुनर्भगवान् शेषमृते परिपठितोनुपदं क्वथा प्रसङ्गैस्तमहमजं मनन्तमात्मतत्त्वं जगजुदयस्थिते संयमात्मशक्तिम् द्युपतिभिरजसक्रकशङ्कराद्यै दुर्वसितत्वमच्युतं नतोऽस्मि उपचितवशक्तिभिः स्व आत्मन्युपरिचितस्थिरजङ्गमालयाय भगवतुपलब्धिमातृधाम्ने सुरदृशभाय नमसनातनाय स्वसुखनिभृतचेतास्तदव्युदन्तान्यभावो त्यजितरुचिरलीलाकृष्णसारस्तदीयं व्यतनुत कृपया यस्तद्वीपं पुराणं तमखिलवृचिनग्नं व्यासशूनं नतोऽस्मि ते श्रीमद्भागवते महापुराणे पारंशां शयितायां द्वादशस्कन्धे द्वादशस्कन्धार्थनिरूपणं नाम द्वादशोऽध्याय